श्रीमद्भागवतमापुराणं चतुर्थस्कन्द असाष्टमोऽध्यायः मैत्रे उवाच सनकाद्यानार्दश्चर्भुर्हंसोऽनिर्यतिः नैते गृहान् ब्रह्मसुताह्यावसन्नोर्ध्वरेतसः मिषाधर्मस्य भार्यासीदम्भम् मायां च शत्रुहन् असूतमिथुनं तत्तो नृतिजगृहे प्रजः तयो समुभुवल्लोभोन्कृतिश्च महामते ताभ्यां क्रोधस्य हिंसाच च यद्दुरुक्ति स्वसा कलिः दुरुक्तौ कलिराधात् कलिराधत्तभयं मृत्युं च सत्तम तयोश्च मिथुनं यज्ञे निर्यस्तथा सङ्ग्रहेण म्याख्यात प्रतिसर्गसवानघु द्वैतत्पमान् पुण्यं विष्णोत्यात्मनो बलम् अथात् कीर्तये वंशं पुण्यकीर्तये कुरुद्वः सायंभुवस्यापि मनोर्हरे रंसां स जन्मनः प्रियव्रतोत्तानपादौ सतरूपापते सुतौ वासुदेवस्य कलया रक्षायां जगतः स्थितौ जाये उत्तानपादस्य सुनीते सुरुचिस्तयोः सुरुचि प्रेयसे प्रत्युर्नीतराज सुतो ध्रुवः एकदा सुरुचे पुत्रम् अङ्कमारोप्यलालयन् उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवं सुरुचि शृण्वतो राज्ञमाहातिगर्विता लवस्य निवतेधिष्ण्यं भवानारोढुमर्हति न मयायत्वं मया यत् त्वं कुक्षावपि निपात्मजः बालोऽसि बतनामान्नात्मानम् अन्यस्त्रीगर्वशम्भृतम् नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः तपसाराध्यपुरुषम् तस्यैवानुग्रहेण वे गर्भे त्वम् साधियात्मानं यदीक्षते निपासनम् मैत्री उवाच मातुः सपत्न्या सिरुक्तिविद्ध स्वसन्दृशाद्दण्डहतो यथाभि हित्वा मिशन्तं पितरं सन्नन् सन्नवाचं जगाममातुः प्रवृदन्तकाशं तं निःस्वसन्तं स्वरिताधरोष्ठं शुनेतिरुस्सङ्गौदुह्यबालं नितं यत उत्परं मुखान्निवृन्तान्तं सा विव्यधेयद्गदितं सपत्न्या सोसृज्यधैर्यं विरलापशोकदावाग्नादावलतेव बाला वाक्यं सपत्न्या स्मरति सरोज श्रियादिशास्पं कलामुवाह दीर्घं शशन्ति वृजनस्य पारं हस्यन्ति बालकमाहं बाला मा मङ्गलं तात्परे सुमंस्था भुङ्क्ते जनो यत्परदुःखदस्तत् सत्यं श्रुत्याभिहितं भवान् मे यद्दुर्भगाया उदरे गृहीत तन्यैन वृद्धश्च विलज्जते यां भारेति वावोढिमिरस्पतिर् माम् आतिष्ठदत्तातविमसरस्त्वम् उक्तं स मात्रापीयदव्यलीकम् आराधयाधोक्षजिं पादपद्मं यदीक्षसे ध्यासनमुत्तमो यतां यस्याङ्घ्रिपद्मं परिचर्य विश्वविभावनायातगुणाभिपत्तेः अयोध्यतीशन् खलु पारमेशं जितात्म जितात्मस्वसनाभिवन्द्यं तथा मनुर्वो भगवान् पितामहो यमेकमत्या पुरिदक्षिणैर्मखै इष्ट्वाम् इष्ट्वाभिपेदे दुर्वापमन्यतो भौमं सुखं दिव्यमथापवर्यं तमेव वस्सा अनन्यभावे निजधर्मभावि ते मनस्य भजस् वशाप्यभजस्व पूरुषं नान्यं तत् पद्मपलासलोचनात् दुःखच्छिदं ते मृगयामि कञ्चन् यो मृग्यते हस्त्रगृहीतपद्ययां त्रिते त्रियेतरैरङ्गविमृण्यमाणया मैत्रीवाच एवं सञ्जल्पितं मातुः आकर्ण्यार्थागमं वचः संनियम्यात्मनात्मानं निश्चक्रामपितुः पुरात् नारदस्तदुपाकर्ण ज्ञात्वा तस्य चिकीर्षितं पृष्ट्वा मूर्धन्यघग्नेन पाणिना प्राहविस्मितः अहो तेज क्षत्रियाणां मानभङ्गम् अमृस्यताम् बालोऽप्ययं हृदा धत्ते यः समाचूर्यसद्वचः